मुद्गलपुराणं खण्डं नैन् योगचरितम् अध्यायम् इलेवन् तत्त्वविचारयोगम् श्रीगणेशाय नमः दक्ष उवाच त्वया प्रोक्तः पुरा विप्रविचारो ब्रह्मणः परः तं कृत्वा योगमाप्नोति तद्वदस्वहितावहम् क्रियया शुद्धचित्तो यो नरो ब्रह्म परायणः सर्वत्र ब्रह्मरूपं यद्विधिना केन पश्यति मुद्गल उवाच बाह्यान्तरां क्रियां कृत्वा शुद्धचित्तो नरोत्तमः तत्त्वविचारमार्गेण पश्यति ब्रह्म शाश्वतम् तत्तेऽहं कथयिष्यामि तत्त्वज्ञानं प्रजापदे आदौ योगिजनानां यत् साधनं योगदायकं। पृथ्वी जलं तथा तेजो वायुराकाशमेवयत पञ्चभूतमयो देहः प्रकृतिस्सा च पञ्चथा क्रियारूपा महाभागा नानाभेदपरायणा विभज्यात्मानमेवं सा क्रीडति विविधेरता भूतानामेकभावाख्या पञ्चानां ज्ञानरूपिणी प्रकृतिर्हृदि संस्था सा जीवभावधरा परा तया ज्ञानं भवेत् सर्वं नाना विवेकदायकं तदाधारं जगत्सर्वमेकरूपा प्रकीर्तिता तयोर्योगे प्रजानादब्रह्मैवमभिधीयते क्रियाज्ञानस्वरूपाख्यं द्वन्द्वहीनं परात्परं तदेव पञ्चधा जातं शृणु स्थूलं सूक्ष्मं समं चात्मप्रदीदं बिन्दु संज्ञिदं समष्टिव्यष्टिभावेन द्विविधं ब्रह्म कथ्यते पृथक्त्वेन स्वयं भाधि पञ्चसु पञ्च भेदतः स्थूलं जागृन्मयं ब्रह्म तदेव द्विविधं मदम् विश्वाख्यं व्यक्तिरूपेण वैश्वानरं समष्ठिगम् अण्डेषु विविधारूपा जन्तवो दृष्टिगोचराः जाग्रद्भावधरा सर्वे विश्वात्मका उदाहृताः तस्य बोद्धं प्रवक्ष्यामि सुगमार्थप्रकाशकम् प्रियात्मकेषु देहेषु प्रियारूपा भवन्ति ते ज्ञानात्मकेषु देहेषु ज्ञानरूपधरा मताः उभयोर्योगभावेन विस्वाख्यास्ते प्रकीर्तिताः बाह्यदेहस्य भो दक्ष वितस्ती यादृशी भवेत् तावन्मानेन सर्वेषां ज्ञान हृदि स्थितः विराजाग्रस्वरूपस्थो वैश्वानर इति स्मृतः व्यापकात्मकदेहेन तिष्ठदि विश्वभाविषु विश्व तस्यापि द्विविधो देहक्रियाज्ञानप्रभेदः तयोर्योगे समाख्यादो वैश्वानरश्च तन्मयः विश्ववैश्वानरयोश्च योगे ब्रह्मप्रकीर्तितं जाग्रत्धावधरं पूर्णं स्थूलभूतप्रकाशकं यद् स्थूलस्य तत्त्वं ते कथितं तु समासदः तत्र तत्त्वविधिम् भिन्नं शृणु योगसमाधितम् जन्ममृत्युयुतं यच्च नानाभावपरायणम् त्वम् पदाख्यं प्रजानाथ जन्ममृत्युविहीनं यदेकरूपं प्रकीर्तितम् तत्पदाख्यं च तद्विद्धि परं सर्वात्मधारकं तयोर्योगे भवेत्तत्त्वं तदेवासि पदं परं द्वन्द्वभावविहीनं यद्वन्द्वरूपप्रकाशकम् त्वं पदं क्रियया युक्तं ज्ञानाख्यं तत्पदं भवेद तयोर्योगे भवेद्विश्वं तत्त्वरूपं न संशयः एवं वैश्वानराख्यं त्वं जानीहि तत्त्वसंज्ञयाज्ञानसमयोगे तयोः प्रकाशकारकम् अधान्यशृणु दक्षत्वं तत्त्वरूपं पुरातनम् विश्वाख्यजन्तवः सर्वे नानाभावात्मकाबुधैः जन्ममृत्युयुध प्रोक्तास्त्वम्पदधारकामताः वैश्वानरस्त्वम्बदश्चैकरूपाद्व्यापको मदः तयोरभेदभावे यद्ब्रह्मतत्त्वं प्रकीर्त्यते जागृ भावधरं पूर्णं स्थूलभावपरायणम् एवं नानाविभागेषु ज्ञातव्यं तत्त्वरूपकं सूक्ष्मादिषु प्रजानाथब्रह्मसौख्यप्रदायकम् अथ सूक्ष्मं प्रवक्ष्यामि योगमार्गप्रसिद्धये शुद्धचित्तप्रभावेण तज्ज्ञानं तन्मयं भवेद बाह्यं स्थूलं विशेषेण जागृदन्नमयं परम् आन्तरं स्वप्नभावाख्यं सूक्ष्मं जानीहि मानद प्राणोदशविधप्रोक्ततः सूक्ष्मरूपोन्तरे स्थितः तस्मात् सूक्ष्मं, तस्मात सूक्ष्मं मनः प्रोक्तं प्राणान्तस्सव्यवस्थितं तस्मात् सूक्ष्मं च विज्ञानं देहद्वन्द्वज्ञमुत्तमं मनोन्तरे स्थितं पूर्णं तदन्तर्न च विद्यते त्रिविधं कोशसंयुक्तं स्वप्नं सूक्ष्मस्वरूपकं सर्वान्तरे स्थितं ब्रह्मद्वन्द्वमायाप्रचालकं देहसूक्ष्मभूतमयस्मृतः सर्वान्तरे समास्थाय कल्पिताभोगकारकः ज्ञानदेहसमाख्या दत्सतैकभावद्धारकः पूर्ववत्सर्वं विज्ञेयं सूक्ष्ममायाप्रकाशकं भिन्नभावधरा सर्वे जन्तवस्वप्नगाः पराः तैजसास्ते मदाशास्त्रे क्रियाज्ञानप्रकाशकाः विराट् तत्र समाख्यादो हिरण्यगर्भसंदः व्यापकस्वप्नभावेषु नानाजन्तुप्रचालकः तयोरभेदभावे यद्ब्रह्मस्वप्नात्मकम् परम् सूक्ष्ममायाप्रकाशत्वात्सूक्ष्मं तत्कथ्यदेबुधैः पूर्ववत्तत्त्वभावश्च विज्ञेयत्सूक्ष्मगः परः शुद्धचित्तप्रभावेण साक्षात्कारम् करोति सः अतः परं समाख्यं यत् ब्रह्म सुषुप्तिसञ्ज्ञम् कथयामि महाप्रीत्या लोकानामुपकारकं बाह्यं जागृन्मयं दक्षवपुः सर्वत्र पठ्यदे अन्तरं स्वप्नमित्युक्तं तयो योगे समात्मकं बाह्यान्तरैकभावाख्यं बाह्यान्तरविवर्जितम् आनन्दकोशकं साम्यं कृदम्भूदैर् गुणात्मकैः जागृत्य क्वा नरो यस्तु स्वप्नं गच्छति तत्र सः तयोः सन्धिं समाश्रित्य सुषुप्तिर्जायते परा तथा स्वप्नं परित्यज्य जागृतिं गच्छति स्वयं तयोः समास्थाय तिष्ठति सा यत्र सुप्तो नरो दक्षज्ञानयुक्तो भवत्यसौ न जानाति स्वकं चान्यं स्वप्नं नैव प्रपश्यति सा सुप्तिसमाख्यादानिद्रां संश्रध्य तिष्ठति जाग्रदिस्वप्न बोधं या करोति सा साद्विधामयया युक्ता प्राज्ञेश्वरस्वभावतः भिन्नदेकधराणां तु प्रज्ञाख्या सा प्रकीर्तिता विराड्रूपधरा नित्याेश्वराख्या तत्त्वसंज्ञा यथा अथ तुरीयरूपं ते कथयामि समासदः नादरूपधरं भूत तन्मात्राभेदमञ्जसा व्यवस्था संश्रितं पूर्णं त्रिषु साक्षिवदुच्यते तस्यानुभवमाहात्म्यं कथयामि हितायते मया जागृन्मयं भुक्तं मया स्वप्नं विलोकितम् निद्रायां न मया किञ्चिज्जातं वदति यः स यदा जागर्ति विश्वस्थस्तदा द्वाभ्यां विवर्जितः यदा स्वपिदिषद्वाभ्यां हीनस्तिष्ठदि निश्चितं यदा सुषुक्तिसंस्थोऽयं तदा द्वाभ्यां विवर्जितः एवं भेदप्रकारैः सव्यवस्था संयुधो मदः तस्य तत्त्वं प्रवक्ष्यामि वैश्वतैजसप्राज्ञगः त्वम्बदाख्यसमाख्यादो नादरूपधरः प्रभुः त्रिवीराण्मय एवसौ तत्पदाख्यप्रकीर्त्यदे तयोरभेदभावे स तत्त्वरूपोऽस्मिदामयः अवस्थानां समायोगो नादस्तुरीयधारकः सतैकभावसंयुक्त सर्वत्रा सौ विराजति न बाह्यो नान्तरस्थोऽयं नो भयात्मक उच्यते अहमित्येव कोशात्मास्मिदाख्यः परमेश्वरः अधः परं प्रवक्ष्यामि बिन्दुतत्त्वं सुसौख्यदम् पञ्चमं ब्रह्म संज्ञं तद्देहानां देहगं परं व्यवस्थामयसंस्थं यत्त्वं पदस्थं प्रकध्यदे तुरीयसंज्ञेहं तत्पदाख्यं प्रकीर्तितं तयोरभेदभावे यत्तत्त्वं योगमयं परं चतुर्षु संस्थितं पूर्णम् चतुर्भिर्वर्जितं सदा एवं तत्त्वविचारेण शमदमपरायणः सङ्कल्पजान् सदा कामांस् त्यक्त्वा योगमयो भवेद् सर्वत्र ब्रह्मसंस्थं यत् पश्येत् तन्नात्र संशयः तत्त्वरूपधरं पूर्णं तत्त्वविचारतः सदा अधान्य तत्त्वमार्गं ते कथयिष्यामि सर्वदं बिन्धुस्त्वं पदसंज्ञहं तत्पदगम् तयोर्योगे प्रजानाथ बोधस्तत्त्वमयस्मृतः मनोवाणीविहीनत्वा दृश्यते योगिना परः बोधस्त्वं पदरूपश्च विबोधस्तत्पदात्मकः तयोर्योगे स्वसंवेद्यं तत्त्वं वेदे प्रकीर्तितम् असत्त्वं पदरूपं सत्तत्पदस्तमुदुच्यते तयोर्योगे समं ब्रह्मतत्त्वं योगप्रदं मदं समं त्वं पदसंज्ञस्तमव्यक्तं तत्पदस्थितं तयोर्योगे तथा तत्त्वं स्वानन्दाख्यं प्रकीर्तितं स्वानन्दस्त्वं पदाख्यश्च तयोर्योगे परं तत्त्वं पूर्णयोगमयं मदं सिद्धिस्त्वं पदगा प्रोक्ता बुद्धिस्तत्पदगा मदा तयोर्योगे गणेशानस्तत्त्वरूपः प्रकथ्यते एवं नानामतर्युक्ता वेदान्तार्थविचक्षणाः तत्त्वं वदन्ति दक्षत्वं जानीहि नात्र संशयः अनन्तभावसंयुक्तं त्वं पदं विद्धि सर्वदा अकल्पितं तत्पदाख्यं तयोर्योगे परं भवेद् इदं सारं रहस्यं ते कथीदं योगदम् परं येन सर्वत्र योगं स सम्पश्ये ज्ञानचक्षुषा ॐ तत्सदिति श्रीमदान्ध्ये पुराणोपनिषद्दि श्रीमन्मौद्गले महापुराणे नवमे खण्डे योगचरिते मुद्गलदक्षसंवादे योगामृतार्थशास्त्रे चित्तभूमिनिरोधेन तत्त्वविचारयोगो नाम एकादशोऽध्यायः यदि योगगीतासु उपनिषत्सु सुगमासु सप्तमोऽध्यायः ओ